अथ त्रिसप्ततितमः सर्गः ततो हतान् राक्षस पुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरिताः शशंसुः ततो हतांस्तान् सहसा निशं य राजा महाबाष्परिप्लुताक्षः पुत्र क्षयम् भ्रातृवधम् च घोरम् विचिन्त्य राजा विपुलम् प्रदध्यौ ततस्तु राजानमुदीक्ष्य दीनम् शोकार्णवेसम् परि पुप्लुवानाम् रथर्ष भो राक्षस राजसोऽनुस्तमिन्द्रजिद् वाक्यमिदम्बभाषे न यथेन्द्रजि जीवति नैरृतेषा नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभि पातुम् पश्याद्य रामम् सह लक्ष्मणेन मद्बाण निर्भिन्न विकीर्ण देहम् इमाम् प्रतिज्ञाम् शृणुशक्रशत्रोः सुनिश्चिताम् पौरुष अद्यैव रामम् सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः अद्येन्द्रवैव स्वत विष्णुरुद्रसाध्याश्च वैश्वानरचन्द्रसूर्याः द्रक्ष्यन्ति मे विक्रममप्रमेयम् विष्णोरिवोऽग्रम् बलियज्ञवाटे स एवमुक्त्वा त्रिदशेन्द्र शत्रुरापृच्छ्य राजानमदीन सत्त्वः समारुरोहानिलतुल्यवेगम् रथम् रथं श्रेष्ठसमाधियुक्तम् समास्थाय महातेजारथम् हरिरथोपमम् जगामसहसा तत्र यत्र युद्धमरिन्दमः तम् व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजङ्गमैः वराहैश्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः काकहंसमयूरैश्च का राक्षसा भीम विक्रमाः प्रासपट्टिष निस्त्रिंश परश्वध गदाधराः भुषुण्डिमुद्गरा यष्टिशतघ्ने परिघायुधाः स शङ्खनि न दैः पूर्णैर्भेरीणाम् चापि निःस्मनैः जगामत्रिदशेन्द्रारि राजिम् वेगेन वीर्यवान् स शङ्खशिवर्णेन छत्रेण रिपुसूदनः रराजप्रतिपूर्णेन नभश्चन्द्रमसा यथा वीरो हैमैर्हेमविभूषणः चारु चामरमुख्यैश्च स तु दृष्ट्वा विनिर्यान्तम् बलेन महतावृतम् राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् त्वमप्रतिरथः पुत्र त्वया वैवासमोजितः किम् पुनर्मानुषम् धृश्यम् निहनिष्यसि राघवम् तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णन् महाशिषः ततस्त्विन्द्रजितालङ्का सूर्यप्रतिमतेजसा रजा प्रतिवीर्येण द्यौरिवार्केण भास्वता सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः महा। स्थापयामास रक्षांसि रथम् प्रति समन्ततः ततस्तु हुतभोक्तारम् हुतभुक्सदृशप्रभः जुहुर्वेराक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः सह विर्लाजसत्कारैर्माल्यगन्धपुरस्कृतैः जुहुवे पावकम् तत्र राक्षसेन्द्रः शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः लोहितानि च वासांसि स्रुवम् कार्ष्णायसम् तथा स तत्राग्निम् समास्तीर्यशरपत्रैः सतोमरैः छागस्य कृष्णवर्णस्य जग्राह जग्राहजीवतः सकृदेव समिद्धस्य विधूमस्य महार्चिषः बभूवुस्तानि लिङ्गानि विजयम् यान्यदर्शयन् प्रदक्षिणावर्तशिखस्तप्त काञ्चन सन्निभः हविस्तत्प्रति जग्राहपावकः स्वयमुत्थितः सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः धनुश्चात्मरथम् तत्राभ्यमन्त्रयत् तस्मिन्नाहूयमानेऽस्त्रेहूयमाने सार्क ग्रहेन्दु नक्षत्रम् वितत्रास नभस्थलम् स पावकम् पावक दीप्तते जाहुत्वा महेन्द्र प्रतिमप्रभावः स चापमानासि रथाश्वसूतः ख्येऽन्तर्दधेऽत्मानमचिन्त्य वीर्यः ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः तोमरैरङ्कुशैश्चापि वानराम् जघ्नुराहवे रावणिस्तु सुसङ्क्रुद्धस्तान् निरीक्ष्य निशाचरान् हृष्टा भवन्तो युध्यन्तु वानराणाम् जिघांसया ततस्ते राक्षसाः सर्वे गर्जन्तो जयकाङ्क्षिणः अभ्यवर्षम्स्ततो घोरम् वानराञ्छरवृष्टिभिः स तु नालीकनाराचैर्गदाभिर्मुसलैरपि रक्षोभिः संवृतः सङ्ख्ये वानरान्विचकर्षः ते समरे वानराः पादपायुधाः अभ्यवर्षन्त सहसा रावणिम् शैलपादपैः इन्द्रजित्तु क्रुद्धो महातेजा महाबलः वानराणाम् शरीराणि व्यधमद्रावणात्मजः शरेणैकेन च हरीन् नव पञ्च च सप्त च बिभेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् सशरैः सूर्य संकाशै शातकुम्भविभूषणैः वानरान् समरे वीरः प्रममाथ सुदुर्जयः ते भिन्नगात्राः समरे वानराः शरपीडिताः पेतुर्मथित सुरैरिव महासुराः चेतपन्तमिवादित्यम् घोरैर्बाणगभस्तिभिः अभ्यधावन्तसङ्क्रुद्धाः संयुगे वानरऋषभाः ततस्तु वानराः सर्वे भिन्नदेहाविचेतसः व्यथिता विद्रवन्ति स्मरुधिरेण समुक्षिताः रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः नर्दन्तस्ते निवृत्तास्तु समरे ते द्रुम पर्वताग्रैश्च शिला प्लवंग अभ्यवर्ष रावणि सामवस्थिता तम दुमाण शिला वर्ष प्राण हरमोहत महातेज रावणि सत पावक सकाश शरिराशी विशोपम वानराण मनीका विभेद सर प्रभु अष्टादशशरैस्तीक्ष्णैः स विद्ध्वागन्धमादनम् विव्याधनवभिश्चैव नलम् दूरादवस्थितम् सप्तभिस्तु महावीर्यो मैन्दम् मर्मविदारणैः पञ्चभिर्विशिखैश्चैव गजम् विव्याधसंयुगे जाम्बवन्तम् तु दशभिर्नीलम् त्रिंशद्भिरेव च सुग्रीव तथा घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः अर्दयामास सङ्क्रद्धः कालाग्निरिवमूर्च्छितः सशरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः वानराणामनीकानि निर्ममन्थमहारणे आकुलाम् वानरीम् सेनाम् शरजालेन पीडिताम् कृष्णः स परया प्रीत्या ददर्श क्षतजोक्षिता पुनरेव महातेज राक्षसेन्द्रात्मजो बली संसृज्य बाणवर्षम् च शस्त्रवर्षम् च दारुणम् ममर्द वानरानीकम् परितस्तीन्द्रजिद्बली स्वसैन्यमुत्सृज्य समेत्यतोर्णम् महाहवे वानर वाहिनीषु अदृश्यमाणः शरजालमुग्रम् ववर्ष नीलाम्बुधरो यथाम्बू ते शक्रजिद्बाण विशीर्ण देहा माया विगूढम् च सुरेन्द्र शत्रुम् न चात्र तम् राक्षसमप्यपश्यन् ततः स रक्षोऽधिपतिर्महात्मा सर्वादिशो च वानरेन्द्रान् सशूलनिस्त्रिंश परश्वधा स विस्फुलिङ्गोज्ज्वल पावकानि वर्षतीव्रम् प्लवगेन्द्र सैन्ये ततो ज्वलन उदीक्षमाणा गगनम् केचिन्नेत्रेषु ताडिताः शरैर्विविशुरन्योन्यम् पेतुश्च जगतीतले हनूमन्तम् च सुग्रीवमङ्गलम् गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शिनमेव च मैन्दम् च द्विविधम् गवयम् तथा केसरिम् हरिलोमानम् विद्युद्दंष्ट्रम् च वानरम् सूर्याननम् ज्योतिर्मुखम् तथादभिमुखम् हरिम् पावकाक्षम् नलम् चैव कुमुदम् चैव वानरम् प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः दिव्याधहरिशार्दूलान् सर्वान्स्तान् राक्षसोत्तमः वर्ष रामम् शरवृष्टिजालैः स लक्ष्मणम् भास्कर रश्मिकल्पैः स बाणवर्षैरभिवृष्यमाणो धाराणि पातानि बता न चिन्त्य समीक्षमाणः परमाद्भुतः श्रीरामस्तदा लक्ष्मणमित्युवाच असौ पुनर्लक्ष्मण राक्षसेन्द्रो निपातयित्वा हरिसैन्यमस्माञ्छितैः शरैरर्दयति प्रसक्तम् स्वयम्भुवा दत्तवरो महात्मा समाहितोऽन्तर्हित भीमकायः कथम् नु शक्यो युधि नष्ट देहो निहन्तु मन्ये स्वयम्भूर्भगवान् अचिन्त्यस्तस्यैतदस्त्रम् प्रभवश्च बाणावपातम् त्वमिहाद्यधीमन्मया सहाव्यग्रमनाः सह स्वा प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वादिशः सायक वृष्टिजालैः एतच्च सर्वम् पतिताग्र्यशूरम् न भ्राजते वानर दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्त युद्धौ ध्रुवम् प्रवेक्ष्यत्यमरारिवासमसौ समासाद्यरणाग्र्यलक्ष्मी ततस्तु ताविन्द्रजितोऽस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ स चापि तौ तत्र विषादयत्वाननादहर्षाद्युधिराक्षसेन्द्रः ततस्तदा वानरसैन्यमेवम् रामम् च सङ्ख्ये सह लक्ष्मणेन विषादयित्वा सहसा विवेश पुरीम् दशग्रीवभुजाभिगुप्ताम् संस्तूयमानः स तु यातु या धानैः पित्रे च सर्वम् भृषितोऽभ्युवाच इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः